गरुडपुराणं प्रेतकाण्डं धर्मकाण्डम् अध्यायं 33 त्रि गरुड उवाच उत्पत्तिलक्षणं जन्धो कथितं मयि पुत्रके यमलोक कियन्मात्रत्रैलोक्ये सचराचरे विस्तरं तस्य मे ब्रूहि अध्वा चैव स्मृतः कैष्टपापैः कृतैर्देवकेन वा शुभकर्मणा गच्छन्ति मान वास्तत्र कथयत्स्व विशेषतः श्रीभगवानुवाच षडशीतिसहस्राणि योजनानां प्रमाणतः यमलोकस्य चाध्वानमन्दरा मानुषस्य च दुमाद ताम्र धुमादताम्रमिवातप्तो ज्वलदुर्गो महापथः तत्र गच्छन्ति पापिष्ठ मानवामूढचेदसः कण्टकाश्च सुदीक्ष्णा वैविविधा खोरदर्शनाः तैस्तु वा लुक्षितिर्व्याप्ता कुदा शश्च वृक्षच्छाया तत्रास्ति यत्र विश्रमदे नरः गृहीतकालपाशैश्च कृधैकर्मभिरुल्बणैः तस्मिन्मार्गेण चान्नाद्यम् येन प्राणान् प्रपोषयेद् न जलम् दृश्यते तत्र वृषा येन विलीयते क्षुधया पीडितोयादि कृष्णया च महापथे शीतेन कम्पदे यमा यममार्गेदि दुर्गमे यद्यस्यया यादृश्यं पापं स पन्थास्तस्य तादृशः सुदीना कृपणामूठा दुःखैर्व्याप्तास्तरन्ति रुदन्ति दारुणं जित, केजित् केजिद्रोहं वदन्ति च आत्मकर्म कृतैर्दोषैः पच्यमाना मुहुर्मुहुः यीदृग्विधः स वैपन्था विज्ञेयो दारुणखग वितृष्णायेन लोके सुखम् तस्मिन् व्रजन्ति ते यानि यानि दत्ता भुवि तानि तेपतिषंध यमलोके पुस्पथी पापी नो नोपतिषंध्राद्धजलांजलि भ्रमंद वायुभूदास्ते ये क्षुद्र पापकर्मिण येदृश्यम वर्म तद्रौद्रम कथव्रद पुनश्च कथयिष्यामि यममार्गस्य या स्थितिः याम्यनैहृदयोर्मध्ये पुरं वैवस्वतस्य सर्वं वज्रमयं दिव्यमभेद्यं तत्सुरासुरैः चतुरस्रं चतुर्द्वारं सप्त प्राकारतोरणम् स्वयं तिष्ठति वै यस्यां योजनानां सहस्रं वै प्रमाणेन सर्वरत्नमयं दिव्यं विद्युज्वालार्कतैजसं तद्गुहं धर्मराजस्य विस्तीर्णं काञ्चनप्रभं योजनानां पञ्चशतप्रमाणेन समुच्छ्रितं हृतं स्तम्भसहस्रैस्तु वैदूल्यमणिमण्डितं मुक्ताज्जालगवाक्षं च पदाकाशदभूषितम् खण्डाशदनिनादाढ्यं तोरणानां शतैर्वृदम् एवमादिभिरन्यैश्च भूषणैर्भूषितं सदा तत्रस्थो भगवान् धर्म आसनेदु दशयोजनविस्तीर्णे नीलजीमूदसन्निभे धर्मज्ञो धर्मशीलश्च धर्मयुक्तो हितो यमः भयदपापयुक्तानां धार्मिकाणां सुखप्रदः मन्दमारुदसंयोगैरुत्सवायैर्विविधैस्तथा व्याख्यानैर्विविधैर्युक्तशङ्घवावित्रनिस्वनैः पुरमध्यप्रवेशे तु चित्रगुप्तस्य वैगृहं पञ्चविंशतिसङ्ख्यानां योजनानां सुविस्तरं दशोच्छ्रितं महादिव्यं लोहप्राकारभोष्ठितं प्रतोलीषद सञ्चारं पतदाकाशदशोभितं दीपिकाशदसङ्कीर्णं गीतध्वनि समाकुलं विचित्रचित्र कुशलैश्चित्रगुप्तस्य वैगृहम् मणिमुक्तामये दिव्ये आसने परमाधुदे तत्रस्तो गणयत्यायुर्मानुषेष्वितरेषु च न मुह्यति कदाचित् स सुकृते दुष्कृतेऽपि वा यद्येनोपार्जितम् यावत् तावद्वैवेति तस्य तद् दशाष्टदोषरहितम् कृतकर्म लिखत्य सौ चित्रगुप्तालया काच्याम् ज्वरस्यास्ति महागृहम् दक्षिणे चापि लताविस्फोटकस्य च पश्चिमे कालपाशस्य अजीर्णस्या रुचेस्तथा मध्यपीठोत्तरे ज्ञेयो तथा चान्या विषूचिका ऐशन्यां वैशिरोर्तिश्च आग्नेयाञ्च मृकदा अधिसारश्च नैरृत्यां वायव्यां दाहसंज्ञकः येभि परिवृतो नित्यं चित्रगुप्तः यत्कर्म कुरुदे कश्चित् विलखत्यसौ धर्मराजगृहद्वारिदूतस्तार्क्ष्य तथा निशि तिष्ठन्ति पापकर्माण पच्यमाना नराधमाः यमदूतैर्महापाशैर्हन्यमानाश्च मुद्गरैः वध्यन्ते विविधै पापै पूर्वकर्मकृतैर्नराः नानाप्रहाराणाग्रैश्च नानायन्द्रैस्तथा सिद्यन्ते पापकर्माणक्रकचै काष्ठवद्विधा अन्ये ज्वलद्भिरङ्गारैर्वेष्टिधा परिदो भृश्यम् पूर्वकर्मविपाकेन ध्मा यन्ते लोकपिण्डवद क्षिप्त्वान्ये च धरा वन्दमानाश्च दृश्यन्ते पूर्वकर्मविपाकदः केचिद्गुडमयैपाकैस्तैलपाकैस्तथावरे विड्यन्ते यमदूतैश्च पापिष्टाः सुभृशं नराः क्षणाग्नि प्रार्थयन्त्यन्ये देहि देदीदिकोडिशः यमलोके मया दृष्टा मम स्वम्भक्षिदं त्वया इत्येवं बहुशस्त्रार्क्ष्यनरकापापिनां स्मृताः कर्मभिर्बहुभिप्रोक्तैः सर्वशास्त्रे शुभाषितैः दानोपकारं वक्ष्यामि यथा तत्र सुखं भवेद यदि श्रीकारूडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रतकल्पे श्रीकृष्णगरुडसंवादे यमलोकविस्तृदिदृवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ओम् अध्यायं तर्टिफोर् श्रीकृष्ण उवाच शृणुतार्क्ष्ययदान्यायं धर्माधर्मस्य लक्षणम् सुकृतं दुष्कृतं नृणामग्रे धावधि धावतां कृते तपप्रशंसन्दित्रेदायां ज्ञानसाधनं त्वापरे यज्ञदाने च दानमेकं कलौ गृहस्थानां स्मृतो धर्म उत्तमानां विचक्षणैः इष्टापूर्ते स्वशक्रिया हि कुर्वतां नास्ति पादकं यममार्गे सुखं तस्य व्रजतो नितरां भवेद अग्निताभप्रदातारे यैषीदपीडिते द्विजे तप्यमान प्रपूजिताः सुवर्णमणिमुक्तादिवस्त्राण्याभरणानि च तेन सर्वमिदं दत्तं येन दत्ता वसुन्धरा यानि यानि दत्तानि भुवि मानवैः यमलोकपथे तानि तिष्ठन्त्येषां व्यञ्जनानि विचित्राणि भक्ष्यभोज्यानि यानि च ददातिविधिना पुत्रभेदे तदुप पुत्रप्रेदे तदुपतिष्ठति आत्मा वै पुत्रनामास्ति पुत्रस्त्रादायमालये पारयेत्पितरं कौरातेन पुत्र प्रवक्ष्यते अधो देयं च पुत्रेण श्राद्धमाजीविदावधि अधिवासस्तदा प्रेदो भोगान्वै लभदेहि सह दह्यमानस्य प्रेदस्य स्वजनायिर्यो दियदे प्रेदरूपो प्रेदरूपोऽसौ प्रीदो यादियमालये अपक्वे मृन्मये पात्रे दुग्धं दत्तं दिनत्रयं काष्ठत्रयं गुणैर्बद्ध्वा प्रीत्यैरात्रौ चतुष्पथे प्रथमेह्निद्वितीये च तृतीये च तथा कदा आकाशस्तं पिबे दुग्धं प्रेदो वायुवपुर्धरः चतुर्थे सञ्जयकार्यश्चतुर्थे वापि साग्निके अस्ति सञ्चयनं कार्यं ददा दद्यादापाञ्जलिं ततः न पूर्वाह्ने न मध्याह्नेनापराह्नेन सन्धिषु यादे प्रथमयामेदु दद्यादापजलाञ्जलीन् पुत्रेण दत्ते ते सर्वे गोत्रिणो हितबान्धवाः स्वजात्यै परजात्यैश्च देयो नद्यां जलाञ्जलिः गन्तव्यं नैव विप्रेण दातुं शीघ्रं जलाञ्जलिं निवृत्ताश्च यदा नार्यो लोकाचार्यः सदा भवेत् पञ्चत्वं जगदे शूद्रे ह्यः काष्टं अनु व्रजेद्यदा विप्रस्त्रिरात्रमशुचिर्भवेद् त्रिरात्रे च तदपूर्णे नदीम् गच्छेत् समुद्रकाम् प्राणायामशदम् कृत्वा कृतम् प्राश्य विशुध्यति शुद्रो शूद्रो गच्छति सर्वत्र वैश्यस्त्रिशुद्धयोः परः गच्छति स्वीयवर्णेषु दातुं प्रेदे जलाञ्जलिं दत्ते जलाञ्जलौ पश्चात् विदध्यादन्तधावनं त्यजन्ति गोत्रिणः सर्वे दिनानि नवकाश्यप जलाञ्जलिं तथा दातुं गच्छन्ति द्विजसप्तमाः मृदोयस्तु स्थाने मृदो वा विश्वेशस्तु ततस्थानान्न क्वचिद्विहितो बुधैः स्त्रीजनश्चाग्रदो गच्छेत् पृष्टतो नवसञ्चय आचमनं विधातव्यम् पाषाणोपरि संस्थितैः यवांश्च सर्षपान् दूर्वापूर्णपात्रे विलोकयेद प्राश यन्निम्बपत्राणि स्नेहस्नानम् समाचरेत गोत्रिभिर्न च कर्तव्यं गृहान्नञ्च न भोजयेद भुञ्जीदमृण्मये पात्रे उत्थानञ्च विवर्जयेद मृतकस्य गुणाग्राह्यायमगाधां समुद्गिरेद शुभाशुभे च ध्यातव्ये पूर्वकर्मोपसञ्जिते लब्धेनैव च देहेन भुङ्कृते सुकृता दुष्कृते वायुरूपो भ्रमत्येव वायुरूध्वं स गच्छति दशासकर्मक्रियया कुडी निष्पाद्यते ध्रुवं नवकैषोडश्राद्धै प्रयातिः कुडीं नरः तिलैर्दर्भैश्च भूम्यां वै कुडी दातुमयी भवेद दा। पञ्चरत्नानि वक्रेतु येन जीवः प्ररोहति यदा पुष्पम् प्रनष्टम् हि तदा गर्भम् न धारयेद आदरा च तदो भूमौ तिल पशुत्वे स्थावरत्वे च यत्र क्वापि सजायते तत्रैव जन्तुरुत्पन्नश्राद्धम् धन्विना लक्ष्यमुद्दिश्य मुक्तो बाणस्तथाप्नुयाद यथा श्राद्धम् यमुद्दिश्य या कृतं यावन्नोत्पादितो देहस्तावत् श्राद्धैर्न पीडनम् क्षुधा विभ्रममापन्नो दः शाखेन न यस्या भूदाकाशे भ्रमदेतु सः दिनत्रयं वः संस्तोये अग्नावपि आकाशे वसदे त्रीणि दिनमेकन्दुवासगे दग्धे देहे च वग्नौ च जले दुतर्पिद स्नेहस्नानं जलेनैव पूपखकृशरैर्गृहे प्रथमेग्नितृतीये च पञ्चमे सप्तमेऽपि वा नवमैकादशे चैव श्राद्धं नवकमुच्यते बृहद्वारे श्मशाने वा तीर्थे देवालयेऽपि वा यत्राद्योदीयते दे पिण्डस्तत्र सर्वान् समापयेद् एकादशाखे याद्धं तत्सामान्यमुदाहृदम् चतुर्णामेकवर्णानां शुद्ध्यर्थं स्नानमुच्यते कृत्वा चैकादशाखञ्च पुनः स्नात्वा शुचिर्भवेद दध्याद्विप्राय यश्शय्यां यथोक्तं प्रेदमोक्षदां न भवेद्यदा स गोत्रो परोऽपि विधिमाचरेद भार्या वा पुरुषः कच्चित्तुष्टश्च कुरु ते स्त्रियः प्रथमेघनिहः पिण्डोदीयते विधिपूर्वकम् अन्नाद्येन च तेनैव सर्वश्राद्धानि कारयेत् अमन्त्रम् का कारये श्राद्धं दशाखं नामगोत्रतः गृहं विषेद असगोत्रसगोत्रो वा यदि स्त्री यदि वा पुमान् प्रथमेहनिहत्कुर्यात्सदशाखं समापयेद् जीवस्य दशभिपिण्डायैर्देहो निष्पाद्यते ध्रुवं वृद्धिश्च दशभिर्मासायर्गर्भस्तस्य यथा भवेद अशौचं यावदेदस्य तावत् पिण्डोदकक्रिया चतुर्नामपि वर्णानामेष एव विधिस्मृतः यत्र स्त्री तत्रा धौत्रीन् प्रदापयेद चतुरस्तु द्वितीयेऽ्नितृदीये त्रींश्च त्रीं तथैव पृथक्षरा वयोर्द्यादे काकं क्षीरमम्बुज यकोद्दिष्टन्तु वैश्रान्तं च दुर्देहनि कारयेद प्रथमेहनि यः पिण्डस्ते न मूर्धा प्रजायदे, चक्षुश्रोत्रञ्चना सा च द्विधीयेनि प्रजायते गण्ढौ वक्त्रं तथा ग्रीवा तृदियेहनिजायते हृदयं कुक्षिरुदरं च दुर्धे तद्वदेव हि कडिपृष्ठं गुतं चापि पञ्चमे निजायदे। यदे षष्ठे ऊरुजविज्ञेये सप्तमे गुल्फसंभवः। अष्टमे दिवसे प्राप्ते जङ्घे जभवदोण्डजा पादौ च नवमे ज्ञेयौ दशमे बलवत्क्षुभा पिण्ठस्तं दद्यादामिषेणतु सिद्धान्नं तस्य दातव्यं कृश्यरापूपकापयः प्रक्षाल्यविप्रचरणावर्घ्यं द्वञ्चदीपकं द्वादशप्रतिमास्यानि श्राद्धान्य एकादशे तथा त्रिपक्षञ्चापि षण्मासे द्वे श्राद्धानि च षोडश प्रतिमासं प्रदातव्यं मृदाहे यातिथिर्ववेद स मासप्रथमो ज्ञेय इति वेदविदो विदुः शवहस्ते जयश्राद्धं द्विजासने तदेव प्रथमं श्राद्धं तस्यादेकादशेहनी सातिथिर्मासिके श्राद्धे मृदो यस्मिन् दिने नरः ऋक्तयोश्च त्रिपक्षे च सातिथिर्नाद्रियेद पौर्णमस्यामृदो योऽसौ चतुर्धी तस्य चोनक चतुर्ध्यान्दुमृदो यस्तु नवमी तस्य चोनक नवम्यां च मृदो यश्च रिक्ता तस्य चतुर्दशी वेदादिकृताश्च विज्ञेया अन्ध्येष्टौ कुशलेन च एकादशाखे यश्राद्धं नभकं तत्प्रकीर्दिदं चतुष्पाधे त्यजेदन्नं पुनः स्नानं समाचरेदकादशाखादारभ्य खडस्यान्नं जलान्विदं दिने दिने च दातव्यमब्दं यावद्विजोत्तमे मानुषस्य शरीरे तु विद्यदेह्यस्तिसञ्चयः तत्सङ्ख्यत्सर्वदेहेषु षष्ट्यधिकशतत्रयम् उत कुम्भेन पुष्टानि तान्यस्तीनि भवन्ति हि यदस्मदीयते कुम्भप्रीतिप्रेतस्य जायते यस्मिन् दिने मृदो जन्दुरडव्यां विषमे वा यदा तदा भवेद्दाखः सूतकं मृदवासराद तिलपात्रं तदा गन्धधा धूपादिकञ्च एका दशाखे दातव्यं तेन शुद्धो द्वि द्विजो भवेद् क्षत्रियो द्वादशाखे द्वैश्य पञ्चदशे तथा शुद्धि शूद्रस्य मासेन मृतके जातसूतके मासत्रये त्रिरात्रम् स्यात् षण्मासेन द्वक्षिणी आकसंवत्सरा दर्वाक् पूर्ने पूर्णे दत्वोदगं शुचिः अनेनैवानुसारेण शुद्धिः स्यात् सार्ववर्णिकी एकादशशाखप्रभृतिपुरदप्रतिवत्सरं विश्वे देवांस्तु सम्भुज्य पिण्डमेकञ्च निर्वपेद यथा तारागणः सर्वेच्छाद्यन्ते रविरश्मिभिः एवं प्रच्छाद्यते सर्वं न प्रेतो भवति क्वचिद शय्यादानं प्रशंसन्ति सर्वदैवद्विजोत्तमाः अनित्यं जीवनं यस्मात् पश्चात् को नु तावद्यावज्जीवति मानवः मृदे मृत इति क्षणात् स्नेहो निवरुतते आत्मैव ह्यात्मनो बन्धुरेवं ज्ञात्वा मुहुर्मुहुः जीवन्नपीति सञ्चिन्त्य स्वीयं हितमनुस्तमरेद मृदानां कसुदो दद्याद्विजे शय्यां एवं जानन्निदं सर्वं स्वहस्तेनैव दापयेत् तस्माच्छय्यां समासाद्य सारदारुमर्यो दृढां दन्दादिरुचिरां रम्यां हेमपट्टैरलङ्कृतां तस्यां संस्थाप्य हैमञ्च हरिं लक्ष्म्या समन्वितं घृतपूर्णञ्च कलशं परिकल्पयेद् विज्ञयो गरुडप्रीत्यै स निद्रा कलशो बुधैः ताम्बूलकुङ्गुमक्षोदकर्पूरा गुरुचन्दनम् दीपिकोपानकच्छत्रचामरासनभाजनम् पार्श्वेषु स्थापय चक्रिया सप्तधा सप्तधान्यानि चैव शयनस्तस्य भवदीयच्चान्यदुपकारकम् भृङ्गारकरकादर्शम् वितानकं विधानकम् शयामेवंविधाम् कृत्वा ब्राह्मणाय निवेदयेद सपत्नीकाय सम्पूज्य स्वर्ग स्वर्लोकसुखदायिनीं वस्त्रै सुशोभनैपूज्य चैलकम् परिधापयेद कर्णकण्ठाङ्गुली बाहुभूषणैश्चित्रभूषणैः गृहोपकरणैर्युक्तं गृहं धेन्वासमन्वितं ततोऽर्खसम्पदाधव्यपञ्चरत्नफलाक्षतैः यथा शून्यं सागरकन्यया शय्या ममाप्य शून्यास्तु तथा जन्मनि दत्वैवम् तल्पमलम् क्षमाप्यज विसर्जयेद तथा चैका दशाखेदु विधिरेषप्रकीर्तिता ददातियोगि धर्मार्थे बांधवो बांधवे मृते विशेषमत्र पक्षेतु तध्यमानम् मया शृणु उपयुक्तम् च तस्यासीत्यत्किञ्चित् स्वगृहे पुरा तस्य यद्गात्रसं लग्नं वस्त्रं भाजनवाहनं यदभीष्टञ्च तस्यासीत् तत्सर्वं परिकल्पयेद् स्थापयेत् पुरुषम् है मं शय्योपरिशुभं बुधः पूजयित्वा प्रदातव्या मृदशय्यायधोदिद पुरन्तरगृहे सर्वं सूर्यपुत्रालये तदा उपतिष्ठेत् सुखं जन्तो दानप्रभावदः पीडयन्ति न दं याम्या पुरुषाभीषणानः न धर्मेण न हीदेन बाध्यते स नर प्रेदो शय्यादानप्रभावेण प्रेदो मुच्यदे बन्धनाद अपि पापसमयुक्तस्वर्गलोकम् स विमानवरमारूढस्य व्यमानोप्सरो गणैः आभूतसम्प्लवम् यावत्तिष्ठेत् पादकवर्जितः नवकम् षोडश श्राद्धम् शय्याः तथा भर्तुर्या गुरुदे उपकाराय सा मृदा तथा उद्धरे जीवमाना सदी सत्यवदी प्रियं स्त्रिया दध्यन्न शयने हेमकुङ्कुममञ्चनम् वस्त्रभूषा तथा सर्वमे दद्धि धावयेद् उपकारकरम् स्त्रीणाम् यद्धावो दिह किञ्चन च वस्तु भोग्यादिकञ्चयद तत्सर्वं मेलयित्वा दुःस्वे स्वे स्थाने नियोजयद पूजयेल्लोकपालांश्च ग्रहान् देवीं विनायकं ततः शुक्लाम्बरधरो गृहीत कुसुमाञ्जलिः इममुच्चारयेन्मन्त्रं विप्रस्य पुरदो बुधः प्रदस्य प्रतिमाख्येषा सर्वोपकरणायर्युदा सर्वरत्नसमयुक्ता तव विप्रनिवेदिता आत्मा शम्भुशिव गौरी शक्रसुरगणैः सह तस्माच्चय्या प्रदानेन सैष आत्मा प्रसीदतु आचार्याय प्रदादव्या ब्राह्मणाय कुटुम्बिने गृहीते ब्राह्मणस्तत्र कोदादिति च तद प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेद् विधिनानेन वैपक्षिन् दानमेकस्य दापयेद् बहुभ्यो प्रदेयानि गौगृहं शयनं स्त्रियः विभक्तदक्षिणा केदेदादारम् पादयन्ति ये वङ्गो शृणुतस्य च यद्फलं साग्रं वर्षशतं दिव्यं स्वर्गलोके महीयदे यत्पुण्यन्तु व्यधिपादे कार्तिक्या मयनद्वये द्वारकायान्तु यत् पुण्यं चन्द्रसूर्यग्रहे तथा प्रयागे नैमिषे कुरुक्षेत्रे तर्थार्बुदे गङ्गायां यमुनायाञ सिन्धुसागरसङ्गमे तेषु यद्यं तस्मादप्यधिकम् द्विधम् ये दच्छय्या प्रदानस्य नाप्नो दिषोडशीं कलां यत्रा सौजाय दे प्राणीभुङ् तत्रैव तद्फलं कर्मक्षये क्षितव्यादि मानुष्यशुभदर्शनः महाधनीजधर्मज्ञः सर्वशास्त्रविशारदः पुनः स यादिवैकुण्ठं मृतोसौ नरपुङ्गवः दिव्यम् विमानमारुह्य अप्सरोभिः समावृतः अहोस्सौ हव्यकव्येषु पिदृभिः सह मोददे अष्टकास्तु कृतं श्राद्ध मा मखासु पितृपर्वाणि यानि यानि च तेषु च शृणुतार्क्ष्य यथा न्यायं प्रदत्त्वेपिदरो यदि नोपतिष्ठन्ति श्राद्धानि सपिण्डीकरणं विना सपिण्डीकरणं कार्यं पूर्णे वर्षेन संशयः आद्यन्दुशवशुद्ध्यर्थं कृत्वा शैवाक्षषोडशी पितृपान्तिविशुद्ध्यर्थम् शतार्थेन योजयेद वृद्धिम् योजयेद गदकुर्या चूद्रस्य स्वच्छयैव हि साम्प्रतम् साग्निके कार्यम् द्वादशाखे सपिण्डनं न चा सौ एव स वह्निमान् द्वादशाके तदकार्यम् साग्निकेन स अस्ति पोक्षे गया श्राद्धम् श्राद्धम् चापरभक्षिकम् अब्धमध्येन कुर्वीत स पिण्डीकरणम् विना सपत्न्यो यदि बह्व्यस्युरेका पुत्रवदी भवेत् सर्वास्ता पुत्रवत्यस्युस्ते नैकेनात्मजेन हि ना स पुत्र पितृयज्ञं समाचरेद् समाचाराद्भवेत् पावी पितृहा चापि जायते मृदे भरुतरिया नारी प्राणांश्चैव परित्यजेद स पिण्डनम् व्यूठा वैश्या वा क्षत्रियापि वा या वैपि दुःखश्चित् कुर्यात्पुत्रः स पिण्डनम् विप्रेणैव यदा शूद्रा परिणीता प्रमाददः यगोद्दिष्टन्तु तत्राब्धसाधुतेनैव युज्यते अन्येषु दशये पुत्रा जादावर्णचतुष्टये ते तासु तासु योक्तया योक्त्वया स पिण्डीकरणे सदा अन्वष्टकासु यच्छ्राद्धयच्छ्राद्धं वृद्धिहेतुकं पितु पृथक् प्रदाव्यं स्त्रिया पिण्डं स पितामह्या स मम माधुपिदुत्सह पितामहैः सपिण्डीकरणं कार्यमिदि तार्क्ष्यमदं मम अपुत्रायां मृदायां तु पदि धर्मेण योजयेद पुत्रो नास्ति न भर्ता च स्त्रीणां तार्क्ष्य स कारयेद्वृद्धिसमये भ्रातृदाया ददेवरैः दा पतिपुत्रविहीनानां गोत्रीनास्ति न देवरः य गोधिष्ठेन दातव्यं वरेण सह भ्रातृभिः अञ्चनद्विघ्नदो वापि न कृधञ्चेत् स पिण्डनं नभकं षोडश्राद्ध मा दीर्घं कारयेत्तदः अदाहेन च कर्तव्यं स दाहे कारयेद्बुधः दर्भपुत्तलकं कृत्वा वाग्निना दाहयेच्छवं पितुपुत्रेण कर्तव्यं न कुर्वीदपि दासुदे अधिस्नेहान्न सदे भवोऽपि यदा पुत्राविधिमेकसमाचरेद नवश्राद्धं सपिण्डत्वं श्राद्धान्यन्यानि षोडश एकेनैव दु कार्याणि अविभक्तधनेष्वपि अन्ध्येष्टिं गुरुदेहि एको मुनि भै समुदाहृदं विभक्तैश्च पृथक् कार्या क्रिया स्वयं यस्यैतानि न दत्तानि प्रेतश्राद्धा निषोडश पिशाचत्वं स्थिरं तस्य कृतैः वा भ्रातृपुत्रो वा वा सपिण्डीकरणं कुर्यात्पुत्रहीने कगेश्वर सर्वेषाम् पुत्रहीनानाम् पत्रीकुर्यात्सपिण्डनम् ऋत्विजम् करया द्वाध पुरोहितमधापि वा मृते पितब्दमध्ये ह्युपरागो यदा भवेद पर्वणम् न सुधैकार्यम् श्राद्धम् नान्दीमुखम् न च तीर्थश्राद्धम् गया श्राद्धम् श्राद्धमन्यच्च वैदृगम् अब्धमध्येन गुर्वीद महागुरु विपत्तिषु यमकेज गजच्छाया मन्वादिषु युगादिषु पितृपिण्डो न दातव्यस्य पिण्डीकरणं विना यत्नपुरुषस्य यद्दानं देवादीनां च यत्तधा अपूर्णेऽप्यब्धमध्येऽपि कर्तव्यमिति केचन पितृभ्योऽपिः यद् दत्तमर्घपिण्डविवर्जितं कर्तव्यं तच्च वै सर्वमेष एव विधिस्मृदः देवानां पितरो देवा पितॄणां मृषयस्तथा ऋषीणां पितरो देवापिता जयधितेन वै पितृदेवमनुष्याणाम् यज्ञनधो विभुर्ववेद यज्ञनाथस्य यद्दत्तं तद्दत्तं सर्वदेहिनां मृदे पितर्यब्दमध्ये यश्राद्धं कारयेत्सुतः सप्तजन्मकृता धर्माधीयदेनात्र संशयः प्रजीभूतस्तु पितरो लुप्तपिण्डोदकक्रियाः भ्रमन्ति वायुना सर्वे क्षोतृभ्यां परिपीडिताः पितरि प्रेततापन्ने लुप्यदे पैतृकी क्रिया अथमा दुर्विपत्ति स्यात् पितृकार्यं न लुप्यते मृदा मातापिता तिष्ठ जीवन्ती च पितामही स पिण्डनन्दुकरुतव्यं पितामह्या सफैवदु सत्यं सत्यं पुनः सत्यं श्रूयतां वचनं मम न पिण्डो मिलितो येषां मृतानान्दो नृणाभुवि उपतिष्ठेन्न वेदेषां पुत्रैर्दर्थमनेकधा हन्तकारस्तदुद्देश्ये श्राद्धं नैव जलाञ्जलिः <coughs> यदि श्रीगारूडे महापुराणे उत्तरखण्डे द्वितीयांश्ये धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे और्ध्व देहिकादिनिरूपणम् नाम चतुस्त्रिंशोऽध्यायः ओ अध्यायम् तार्क्ष्य उवाच अपरं मम सन्देहम् कथयस्व जनार्दन पुरुषस्य च कस्यापि मता पञ्चत्वमागदा पितामही जीवति च तथा च प्रपितामही वृद्धप्रपितामही तद्वन्मादृसकृदपिता तथा प्रमातामहश्च तथा वृद्धप्रमादामहस्तधा केन सा मेल्यदेमादा एतत्कथय मे प्रभो श्रीकृष्ण उवाच पुनरुक्तम् प्रवक्ष्यामि सपिण्डीकरणम् खग उमा लक्ष्मीश्च सावित्री मेलयध्रुवम् त्रयपिण्डभुजोज्ञेयास्त्यजाकाश्च त्रयस्मृताः त्रयपिण्डानुलेपाश्च दशमः पङ्क्तिसन्निधः इत्येते पुरुषाख्यादा पितृमातृकुलेषु च तारये द्यजमानस्तु दशपूर्वान् दशावरान् सपिण्डः स भवेदादौ सपिण्डीकरणे कृते अन्ध्यस्तुत्याजको ज्ञेयो यो वृद्धप्रपितामहः अन्तिमस्त्याजको ज्ञेयो लेपकप्रथमो भवेद लेपकस्त्विमो लेपकस्त्वन्तिमो यस्तु स भवेत्पङ्क्तिसन्निधः यजमानो भवेदेको दशपृते दशप्यत्वे दशावरे इत्येते पितरो ज्ञेया एकविंशतिसङ्ख्यकाः विधिना कुरु देयस्तु संसारे श्राद्धमुत्तमं जायतेत्रन न सन्देहशृणु तस्यापि यत्फलम् पिदा ददादि पुत्रान्वैविच्छिन्नसन्दधिक होमदादा भवेत्सोऽपि यस्तस्य प्रपितामहः कृते श्राद्धे गुणा ह्येते पितॄणाम् तपेह्ण स्मृताः दद्याद्विपुलमन्नाद्यं वृद्धस्तु प्रपितामहः यस्य पुंसश्च मर्त्ये वैविच्छिन्न सन्दधिखग खोरे पंगे मग्नकरी यधा। योऽन्यन्तरेषु जायते यत्र वृक्षसरीसृपः न सन्ददिम् विना सोऽत्र मुच्यते नरकाध्रुवम् शिष्यो वा यो, यो दूरेऽपि हि गात्र जा नारायणबलिम् कुर्यात्तस्यादेशेन भक्तिदः विशुद्धः सर्वपापेभ्यो मुक्तः स नरकाध्रुवम् निवसेन्ना कलोके च नात्रकार्या विचारणा आदौ कृत्वा धनिष्ठाञ्च एतन्नक्षत्रपञ्चकम् सदा दूष्यमशुभं सर्वदा भवेद् दाहस्तत्र न कर्तव्यो विप्रदि विप्रादिसर्वजातिषु दीयते न जलम् तत्र अशुभम् जायते ध्रुवम् लोकयात्रा न कर्तव्या दुःखार्थस्वजनो यदि पञ्चकानन्तरम् तस्य कर्तव्यम् सर्वमन्यथा पुत्राणाम् गोत्रीणाम् तस्य सन्तापोऽप्युपजायतेष्वृतश्चयः अथवा ऋक्षमध्येऽपि दाहस्तस्य विधीयते क्रियते मानुषाणाम् तु सद्य आहुतिकारणाद सद्याहुदिकरम् पुण्यम् तीर्थे तद्दाः उत्तमः विप्रायर्नियमधकार्यसमन्त्रो विधिपूर्वकः शवस्य च समीपे दुःक्षिप्यन्ते पुत्तलास्ततः दर्भमयाश्च चत्वारो विप्रमन्त्राभिमन्त्रिताः तदो दाहप्रकर्तव्यतैश्च पुत्तलकैः सह सुदकान्दे तदपुत्र कुर्याच्चान्दिगमुत्तमम् पञ्चकेषु मृदो योसौ न गदिम् लभते तिलान् गाश्च सुवर्णम् च समुद्दिश्य हृदम् ददेत विप्राणां सर्वो सर्वोपद्रवनाशनम् सूदकान्ते जसत्पुत्रैः सप्रेदो लभदे गदिम् भाजनो पानहौ छत्रम् हेममुद्रा च वासी दक्षिणादीयते विप्रा सर्वपादकमोचनी बालवृद्धातुराणाम् च मृतानाम् पञ्चकेषु हि विधानं यो न विघ्नस्तस्य प्रजायते अष्टादशैव वस्तूनि प्रेदश्राद्धे विवर्जयेत् आशिषोद्विगुणान् दर्भान् प्रणवान्नैकपिण्डताम् अग्नौ करणमुच्छिष्टं श्राद्धं वै वैश्वदैविकं विखिरं च स्वधाकारं पितृशब्दं न चोच्चरेद अनुशब्दं न कुर्वीद नावाहनमधोल्मुकम् आसीमान्तं न कुर्वीदप्रदक्षिणविसर्जनं न कुर्यात्तिलहोमं च द्विजः पूर्णाहुदिं तथा न कुर्याद्वैश्वदेवं चेत्कर्ता गच्छत्यम् मलिनशाद्धसञ्ज्ञानम् पूर्वषोडशकम् तथा स्थाने द्वारे चार्धमार्गे चितायां शवहस्तके श्मशानवासिभूतेभ्यः पञ्चमम् प्रतिवेश्यकम् षष्ठम् संचयने प्रोक्तं दशपिण्डा दशाहिकाः श्राद्धषोडशकञ्चैतप्रथमम् परिकीर्तितम् अन्यच्च षोडशमध्ये द्वितीयम् तार्क्ष्यमे शृणु कर्तव्यानीहविधिना श्राद्धान्येका दशैवतु ब्रह्मविष्णु शिवाद्यञ्च तथाद्धपञ्चकम् एवम् षोडशकम् प्राहुरेदत्तत्वविदो जनाः द्वादशप्रतिमास्यानि श्राद्धमेकादशे तथा त्रिपक्षसम्भवम् चैव द्वे धिकृते खग षोडश आद्यं शवविशुद्ध्यर्थम् कृत्वान्यच्च त्रिषोडशम् पितृपङ्क्तिविशुद्ध्यर्थम् शदार्थैम् न तु योजयेद् शदार्धेन विहीनो यो मिलितपङ्क्ति भाङ्न हि चत्वारिंशत्तथैवाष्ट्रश्राद्धम् प्रेदत्वनाशनम् सकृदूनशदार्धेन सम्भवेत्पङ्क्तिः सन्निधः मेलनीयशतार्थेन सन्धिश्राद्धेन तत्त्वदः अथ शवाविधिः शवस्य शिबिकायाम् करचरणबन्धनं तत्र कर्तव्यम् एवं चेन्न विधानं विधीयदे परिभावनम् सञ्जायते रजन्याञ्जशवनिर्गमने राष्ट्रं भयशून्यम् शवं न मुञ्चेदमुच्यते चेद् दुःस्पर्शा दुर्गतिर्भवेद् ग्राममध्ये स्थिते प्रेदे श्रुते भुङ्े यदृच्छया तदन्न मांसवज्ञेयं तत्तोऽयम् रुधिरोपमम् ताम्बूलं दन्तकाष्ठञ्च भोजनं मृदुसेवनं ग्राममध्ये स्थिते प्रेदे वर्जयेत्पिण्डवादनं स्नानं दानं जपो होमस्तर्पणं सुरपूजनम् ग्राममध्ये स्थिते प्रेदे शुद्ध्यर्थं ज्ञातिधर्मदः ज्ञातिसम्बन्धिनामेवं व्यवहारखगेश्वर विलुप्य ज्ञादिधर्मं च प्रेतपापेन लिप्यते इति श्रीकारूडे महापुराणे उत्तरखण्डे श्रीकृष्ण गरुडसंवादे सपिण्डनशव विविद्ध्योर्शव विद्ध्योर्निरूपणं नाम पञ्चत्रिंशोऽध्यायः ओम् अध्यायं तर्टिसिक्स् तार्क्ष्य उवाच कस्मादनशनम् पुण्यमक्षय्य गदितायकम् स्वगृहन्तु परित्यज्य तीर्थे वै म्रियते यदि अप्राप्य तीर्थं म्रियते गृहे वा मृत्युमागदः भृत्वा कुडीचरो यस्तु सकाम् सन्न्यासं कुरुदे यस्तु तीर्थे वापि गृहेऽपि वा पी कथं तस्य प्रकर्तव्यमप्राप्तनिधनेऽपि वा नियमे चेत्कृते दे देव चित्तभंगो हि जायते केन तस्य भवेत्सिद्धिकृतेनाप्यकृतेन वा श्रीकृष्ण उवाच कृत्वा निरशनं यो वै मृत्युमाप्नोति कोऽपि चेत् मानुपीं तनुमुत्सृज्य मम तुल्यो विराजते यावन्द्यहानि जीवे निरशने कृते क्रदुभिस्तानि तुल्यानि समग्रव दक्षिणैः तीर्थे गृहे वा संन्यासं नीत्वा चेन्म्रियते यदि प्रत्यहं लभते सोपि पूर्वोक्तं द्विगुणं फलम् महारोगोपपत्तौ च गृहीते नशने शने कृते पुनर्न जायते दे रोगो देववद्धिविराजते दे। य अधुरः सन् गृह्णादि यदि मानवः पुनर्नजायते भूमौ संसारे दुःखसागरे अहन्यहनि दातव्यम् ब्राह्मणानाञ्च भोजनम् तिलपात्रम् यथाशक्तिदीपदानम् सुरार्चनम् एवम् वृत्तस्य दह्यन्ते पापान्युच्चावचानि च मृदो मुक्तिमवाप्नोति यथा सर्वे महर्षयः तस्मादनशनं नृणां वैकुण्ठपददायकम् तस्मात् स्वे स्वस्ते तस्मा चोत्तरेव साधयेन्मोक्षलक्षणम् पुत्रद्रव्यादि सन्त्यज्यतीर्थं व्रजति यो नरः ब्रह्माद्यादेवतास्तस्य भवेयुस्तुष्टिपुष्टिदाः यस्तीर्थसम्मुखो भूत्वा कृदे। ह्यनशने तांदराले चेन्मियेतान्तरालेऽभिरुक्षीणाम् ऋषीणां मण्डले वसेद व्रतं निरशनकृत्वा स्वगृहेऽपि मृदो यदि स्वकुलानि परित्यज्य एकाकी विचरेद्दि अन्नञ्चातोऽयम् परित्यज्य नरो यदि पीतमत्पादतोयश्च न पुनर्जायदेक्षितौ कृत्यासीनन्दतीर्थगतं रक्षन्ति यमदूदा यमदूतविशेषेण न याम्यास्तस्य पार्श्वगाः तीर्थसेवी नरो यस्तु सर्वकिल्बिषवर्जितः तत्र म्रियते दह्येद तत्तीर्थफलभाग्भवेद् सेवितेऽपि सदा तद्धिह्यन्यत्र म्रियते यदि शुभे देशे कुले धीमान् स भवेद्वेदविद्विजः कृत्वा निरसनं तार्क्ष्य पुनर्जीवति मानवः ब्राह्मणान् समाहूय सर्वस्वं यत्परित्यजेद् चान्द्रायणं चरेत्कृष्णमनुज्ञातश्च तैर्द्विजैः अनृतं न वदेत्पश्चाद्धर्म मे वः तीर्थे गत्वा पुनरायादि वै गृहम् अनुज्ञातः स वै विप्रैः प्रायश्चित्तमधाचरेद दत्त्वा गजवाजिनः तीर्थं यदि लभेद्यस्तु मृत्युकाले स भाग्यवान् गृहात् प्रचलितस्तीर्थम् मरणे पदे पदे तु गोदानं यदि हिंसा न जायते गृहे तु यत्कृतम् तीर्थस्नानेन शुध्यति कुरुते तत्र पापञ्चेद् वज्रलेपसमं हि तद् क्लिश्येत्स नात्र तत्र दत्तानि दानानि जायन्ते चाक्षयाणि वै आधुरे सति दातव्यम् निर्धनैरपि मानवैः गावस्तिलाहिरण्यम् जसत् धान्यं विशेषदः दानवन्दं नरं दृष्ट्वा हृष्टा सर्वे दिवौकसः ऋषिभिः सह धर्मण चित्रगुप्तेन सर्वदा आत्मा यत्तं धनं यावत् तावद्विप्रे समर्पयेद पराधीनं मृदे सर्वं कृपया कप्रदास्यदि पिदृद्देश्येन यः विप्रकरे विप्रकरेऽर्पितम् आत्मानं सधनं तेन चक्रे पुत्रप्रपौत्रकैः पिदुष्यदगुणं दत्तं सहस्रं माधुरुच्यते भगिन्या शतसाहस्रं सोदर्ये दत्तमक्षयम् यदि लोभान्न यच्छन्ति प्रमादान्मोहदोऽपि वा मृदा शोचन्ति ते सर्वे कदर्या पापि न स्त्विति प्रकृत्या चञ्चलस्य च गदिरे वित्तस्य दानमन्या विपत्तयः मृत्युशरी गोतारम् वसुरक्षम् वसुन्धरा दुश्चारिणीव हस्तिस्वपदिम् पुत्रवत्सलम् उदासे धार्मिकसौम्यप्राप्यापि विपुलम् धनम् तृणवन्मन्यदेतार्क्ष्य आत्मानं वित्तमप्यथ न चैवो भद्रवस्तस्य मोखजालो न मृत्युकाले न यमदूदसमुद्भवं भयं यमदूतसमुद्भवम् समसहस्राणि च सप्त वैजले दशैकमग्नौपवने जशो महाकवे पष्टिरशीतिर् गोगृहे अनाशके काश्यपचाक्षया गतिः इति श्रीगरुडे महापुराणे उत्तरखण्डे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे नशन मृदगतिनिरूपणं नाम क्षत्रिंशोऽध्यायः ओम्